सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता वासं वने दाशरथिश्चकारा समप्रभावो महानुभावः समरेष्व जेयः विहाय चरेद धर्मम् भूपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य सत्येन तेऽप्यजयम् स्तात लोकान् नेशे बलस्येति चरेदधर्मम् अलर्कमाहुर्नरवर्यसन्तम् सत्यव्रतम् काशिकरुषराजम् विहाय राज्यानि वसो चैव नेशे बलस्येति चरेदधर्मम् धात्राविधिर्यो विहितः पुराणैस्तम् पूजयन्तो नरवर्यसन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् महाबलान् पर्वतकूटमात्रान् विषाणि नः पश्य गजान्नरेन्द्र स्थितान् निदेशे नरवर्यधातुर्नेशे बलस्येति चरेदधर्मम् सर्वाणि भूतानि नरेन्द्र पश्या तथा यथावद्विहितम् विधात्रा स्वयोनितः कर्म सदा चरन्ति नेशे बलस्येति चरेद धर्मम् सत्येन धर्मेण यथार्हवृत्या ह्रिया तथा सर्वभूतान्यतीत्या यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्था यथा प्रतिज्ञं च महानुभावा कृच्छ्रं वने वा समिमं निरुष्या ततः श्रियं तेजसा तेन दीप्ता मादास्यसे पार्थिव कौरवेभ्यः तमेवमुक्त्वा वचनं महर्षिस्तपस्वि मध्ये सहितं सुहृद्भिः आमन्त्र्यधौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सह इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे पञ्चविंशोऽध्यायः